मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टि दूर्वामाहात्म्यवर्णनं श्रीगणेशाय नमः दक्ष उवाच श्रुतं दूर्वार्पणस्यापि माहात्म्यं सर्वसिद्धितं न दूर्वया समं किञ्चिद् दृश्यते भुवनेषु वै तथापि तृप्तिं नोयामि योगामृतपरायणः अदो मे वद योगीन्द्रजनकस्य कथानकं गणेशेन महायोगी भवद किं चकार ततस्थोऽपि गदे विघ्नेश्वरे मुद्गल उवाच शृणु प्रजापदे चित्रं चरित्रं जनकस्य च गदे गणेश्वरे सोऽपि दुःखयुक्तो बभूवः शुशोच हृदि सङ्क्षुब्धो जगाद स्वस्य चेतसि अहो नारदविप्रेण कथितं सत्यमेव तद देहो भक्तिकरप्रोक्तो न भजेद्यस्तमाप्यसः गजाननं नरो नित्यं वञ्चितो मायया परं कर्म निष्ठैर्गणेशानसेव्यः स्वहितकारणादफलप्रदः सेव्यस्तपो निष्ठैस्तथापि सः ज्ञाननिष्ठैः सदा सेव्यो ज्ञानसिद्धिप्रदायकः योगिभिर्योगदा दासेव्यो प्रभु ब्रह्ममयः प्रभुः अहो देहधरः साक्षाद्ब्रह्मणस्पदिवाचकः वेदेषु कथितश्चायं गणेशो नात्र संशयः सन्त्यज्य मूर्खवद्भ्रान्तोऽहं गणेशं प्रभावतः योगस्य चावदमिद्या नरतुल्यस्वभाववान् गणेशभजनं मुख्यं धृतं येन महात्मना स योगीन्द्रगुरुसाक्षात् तत्समं नैव विद्यते एवं क्षोभसमयुक्तो जनकस्वगृहे स्थितः समाययुश्च योगेन्द्रास्तं न वर्षभनन्दनाः नघ्नाः सर्वत्र पूज्याश्च सदा यौवनधारकाः अव्याहदास्त्रिलोके शुभ्रमन्दस्वेच्छयाचराः सर्ववन्द्याः सदा दक्षब्रह्मभूयपरायणाः विधिनिषेधहीनाश्च योगरूपधरा इव गणेशस्य चरित्राणि कथयन्तः परस्परं तद्रूपास्तस्य नामानि वदन्तो हर्षसंयुताः स्वपरभ्रान्तिशून्याश्च समलोष्ठा स्म काञ्चनाः भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः स्वेच्छया कर्मकर्तारस्वेच्छया ज्ञानधारकाः स्वेच्छया समशीला स्वेच्छया स्वस्वरूपस्था स्वेच्छया योगतत्पराः स्वेच्छया पूर्णयोगस्ता वर्णवन्तश्च स्वेच्छया स्वेच्छया श्रमसंयुक्ता स्वेच्छया विधिधारकाः निषेधे स्वेच्छया युक्ता स्वाधीनास्ते च योगिनः विधिनिषेधहीनाश्च स्वेच्छया विनायकाः दण्डादिभिर्विहीनास्ते गणेशगानतत्पराः तान् दृष्ट्वा जनको राजा सम्भ्रमाकुलचेतसा समुद्धाय ननामादौ दण्डवत् पृथिवीतले भोजयामास चान्धसा पादसंवाहने संस्थो जगादवचनं हितं जनक उवाच धन्यौ मेऽपि दरौ विद्या तपःस्वाध्यायकादयः ब्रह्मणस्पदिरूपाणां भवतां दर्शनात् किल निःस्पृहा सर्वभावेषु नात्र संशयः कदापि भवदाज्ञां वै कर्तुमीहे च योगिनः भवतां किञ्चिदाज्ञायां संस्थितो यदि मानवः सकृत्तस्य पुनर्जन्म विद्यते नैव भक्तिभाक् अवमानेन सद्यो वै नारकी जायते नरः साक्षाद्योगस्वरूपाश्च भवन्तः कृपया गदाः न मत्समस्त्रिलोकेषु भवतां दर्शनाद्भवेद अधुना कृतकृत्योऽस्मि जादोऽहं भाग्यगौरवाद मुद्गल उवाच जनकस्य वच श्रुत्वा साधु प्रजापदे जगुःप्रहृष्टभावेन राजानं शान्धिदायकाः नवयोगिन ऊचुः धन्यस्त्वं मानवो राजा विदेहोऽसि न संशयः साधुत्वेदेकसंस्तोऽपि त्वयि चित्रं न सम्भवेत् साधुदर्शनकामाश्च वयं ते गृहमागताः दृष्ट्वा त्वां योगिनं पूर्णं तृप्ता स्म श्रुतकीर्तयः गच्छामो दृष्ट्वा सन्तुष्टा महामते येषां तद्वचनम् श्रुत्वा तान् जगादनृपः पुनः प्रणम्यभक्तिसंयुक्तो हितं सर्वजनप्रियः जनक उवाच वदेतयोगसंसिध्यै किं कर्तव्यं जनैः सदा येन योगेन्द्रवन्द्यास्ते भवन्ति मानवाबुधाः कविवाच स्वधर्मको निोगपरायण रजस्तमस्रस्कृत सयुक्त मुुक गणेशापणु वै कर्मा सतत नर कुछ्रौदास्ता व्रतादी विशेषद आन्तराणि महाराज वायुसाधनकानि वै स्मृतानितानि तानि सर्वाणि कुल्याध्यानपरायणः गणेशस्य सदाध्यानं कुल्यात्स्वहृदि भूमिप एकाक्षरादिमन्त्राश्च तेष्वैकजपकारकः सम्प्रज्ञादः समाधित्तः सम्भवेद्य मानवः तथापि गणराजस्य ध्यानं नैव परित्यजेत् असम्प्रज्ञादयोगस्त भवेद्यदि समानवः तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् गणेशध्यानसंयुक्तो योगभूमिं नृपात्मज स च स्वल्पेन कालेनोल्लङ्घयेद्विघ्नहानदः योगी भवेन्नूनं शान्तियोगपरायणः चित्ते चिन्तामणौसोऽपि तदाकारसुसाधनात् न गणेशसमं किञ्चिज्जगत् सुब्रह्मदं भवेद् सर्वेभ्यो योगदानार्थं बभूवे देहधारकः यदत्ते भूप भूपयोगप्राप्तौ सुसिद्धिदं भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकं जनक उवाच कथम चिंतामणि प्रोक्त गणेशानो वदु कथम जेयं नरश्चिते विशेषद हरिवाच चि पंच विधम प्रोद्र चिंतामणिस्थित चित प्रकाशकघ्नेशन प्रकथ्य क्षिप्तम् मूढम् च विक्षिप्तमेकाग्रम् च निरोधकम् पञ्चथाचित्तमेवम् तु भवते शृणु भूमिप यत्र क्षिप्तम् मनः सर्वैस्तत्र ज्ञानयुगम् तदेव कर्तुमुद्युक्तं समर्थम् सम्भवेत्कथम् क्षिप्तं चित्तम् विजानीहि स्मृतस्तत्र प्रकाशकः चिन्तामणिर्गणाधीशस्तं भजस्व महामदे यत्र क्षिप्तं नरेणैव चित्तं तत्र न गच्छति ज्ञानहीनतया तस्य मूढवन्मूढसंज्ञितम् अन्यच्च भ्रान्तियुक्तानाम् पिशाचवस्थितं सदा चित्तं तदेव मूठं च जनवत्सलः तत्र प्रकाशकर्ता स नानाखेलपरायणः चिन्ताम्मणिर्गणाध्यक्षः स तिष्ठधि भजस्वतं मानवो मोक्षकामुकः ब्रह्मार्पणतया सर्वम् कुरुदे कर्म ब्रह्मानुभवहीनोन ब्रह्मानुभवहीनो जगत्सु सुखलालसः ब्रह्मार्थं तस्य वै विक्षिप्तं कधिदं बुधैः संसारे क्षिप्तभावश्च तस्माद्विगदक्षेपणम् कर्तुम् समुद्यतसोऽपि सदा साधनतत्परः अनेन विधिना राजन्विक्षिप्तं चित्तमुच्यते तत्र प्रकाशकर्तारं चिन्तामणिं भजस्वतं ज्ञानदृष्टिसमुत्पन्ना हृदि सर्वत्र भूमिप साक्षाद्धावस्यैक्यकरा वयवादिकवर्जिता तयासोपि सोऽपि नरस्तत्र यत्र पश्यदि योगविद आकाररहिदम्भादिविश्वं सर्वं न संशयः अष्टधासासमाख्यादा सम्प्रज्ञातस्वरूपिका एकभावकरावृत्तिरेकाग्रा कथिदा बुधैः तत्र चिन्तामणिः प्रकाशकारक स्मृतः तं भजस्वविधानेन सर्वसिद्धिप्रदायकं जगदवयवैर्युक्तं च दुर्देहमयं नृप बिन्धुस्तस्य परा काष्ठा ब्रह्मकायाप्रतारकम् देही भेदविहीनश्च देहचालक उच्यते दे। सोऽहं मात्रात्मकः सोऽपि कथितो वेदवादिभिः तयोर्योगे निरोधश्च सदा भवति चेदसः तस्य भेदौ समाख्यातौ संयोगायोगरूपिणौ स्वद उद्धानयुक्तं परद उत्थानधारकम् स्वतः परद उद्धानवर्जितं ब्रह्म उच्यते ये तत्संयोगकं प्रोक्तं समाधेर्धारकं परं सर्वेषां तत्र संयोगो ब्रह्माकारेण जायते अन्यदयोगरूपं वै निवृत्तेर्धारकं परं ब्रह्ममायाविहीनं तु व्यतिरेकप्रभावतः केषाञ्चित्तत्र संयोगो ब्रह्मणां जगदां भवेद नैव केषु च तस्यापि ब्रह्मायोगं प्रकथ्यते स्वकीयभेदनाशेन लभ्यते नात्र तदेव ब्रह्मभूतत्वम् निरोधवृत्तिजं मदं निरोधे चित्तके राजन् प्रकाश्यदगणेश्वरं चिन्तामणिं भजस्वत्वं परं तत् केललालसं चित्तभूमिस्थं त्यक्त्वा योगपरो भवेद स्वयं चिन्तामणिः साक्षाद्भवदे चित्तनाशनात् शान्त्याः सर्वत्र राजेन्द्रचित्तेषु नित्यमादरात् चिन्तामणिः प्रलभ्येद त्यक्त्वा सद्यश्च चिन्तनम् एदत्ते कथितम् पूर्णम् चिन्तामणिस्वरूपकं तं भजस्व विधानेन चान्द्यायोगपरायणः जनक उवाच एतादृशो गणेशा नः कथं देहधरो भवद तत्र श्रद्धाधिकं नाधस्तादृश्यं जायते कथम् अंतरिक्ष उवाच वामभागे राजसश्च दक्षिणे तामसस्मृतः मध्ये सत्त्वमयप्रोक्तस्तेषां योगे तुरीयकः चतुर्विधमयो देहस्तत्राहङ्कारधारकः देही च तन्मयः साक्षात् कण्ठाधो गणनायकः यस्मात् सर्वं समुत्पन्नं यत्र गच्छति भूमिप समाधिना महोग्रणप्रलये प्रलये स्मृतः कदा न जायते भूपलयं गच्छति कदा तदेव गजशब्दाख्यं ब्रह्मवेदैः प्रकथ्यते तदेवमस्तकं तस्य गणेशस्य महात्मनः तयोर्योगे गणाध्यक्षसाकारो भवतीत्यहो सम्प्रज्ञादमयो देहः कण्ठाधस्तस्य कीर्तितः असम्प्रज्ञादरूपं च कण्ठादूर्ध्वं शिरस्मृतम् तयोर्योगे स्वयं साक्षाद्भक्तानुग्रहकारणाद् देहधारी बभूवापि गणेशो ब्रह्मनायकः न सर्वसमभावाख्यो देहस्तस्य महात्मनः देहधारी गणाधीशो भक्ति भोगार्थमञ्चसा न भक्तेश्च समम् तस्य प्रियम् राजेन्द्रवर्तते तदर्थम् सकलम् हित्वा भक्ताधीनो भवेत् स्वयम् माययाभ्रान्तचित्तानाम् देहधारी यथा नरः तथायम् भवति प्राज्ञ साक्षाद्योगस्वरूपधृक जनक उवाच कीदृशी गणराजस्य मायाभ्रान्तिकरी मदा तामे मे वदत योगीन्द्रा ब्रह्म भूयार्थमञ्जसा प्रबुद्ध उवाच वामाङ्गासिद्धिरुत्पन्ना वामभागप्रकाशिनी दक्षिणाङ्गात्तथा बुद्धिर्दक्षिणाङ्गधराबभौ सिद्धिपुत्रस्वयं लक्षो बुद्धिपुत्रो महामदे लाभस्तयोश्च चित्तादौ सञ्जादौ केलकौ परौ मायामोहितचित्तानां भ्रामकौ नात्र संशयः तयोरूपं प्रवक्ष्यामि शृणु लोकहिताय च पापेषु च नराराजन् यदा लक्ष्यं प्रकुर्वदे तदा नरकदोलाभो लाभो भवते पापकारिणां यदा पुण्येषु लक्ष्यं वै कुर्वदे मानवानृप तदा स्वर्गप्रदोलाभो जायते पुण्यकर्मणा यदा ब्रह्मणि लक्ष्यं वै कुर्वदे मानवानृप तदा योगमयो लाभः सदा भवति हृदि लक्षस्थितो नित्यं सर्वत्र लक्षदायकः पदार्थेषु स्थितो लाभो मदो नानाफलप्रदः ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् बन्धहीनखेलति च स्वेच्छाचारिस्वरूपधृक् तत्रभ्रान्तिकरी प्रोक्ता सिद्धि सर्वत्र वर्तते सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय धर्मसिद्धिस्तद्धार्थस्य सिद्धिकामप्रदायिनी मोक्षसिद्धिस्तदा राजन् ब्रह्मभूय करीमदा अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते भुक्तिमुक्ति ब्रह्मभूयं सिद्धि सुभ्रान्तिदा मदा भ्रान्तिधारकरूपा सा बुद्धि सर्वत्र बुद्ध्या बुद्ध्वा दुराजेन्द्र निवर्तते पंचचित्तमयी बुद्धिस्वयं विश्वात्मिका मता ब्रह्माकारा तथा पदमिच्छदि दुःखदम् स काम चका ब्रह्मूयपरायणा बुद्धिभवती भ्रांदिया भ्राधारक्रांतियुम सर्वं चकार सिद्धिमंजस नानामोकुदम तबुद्धिच्चेलया ताभ्यां सम्मोहितं सर्वं लक्षलाभयुतं भवेत् नानालक्षसमायुक्तं नानालाभफलैर्युदम् अदो मायायुधसोऽपि गणेशो ब्रह्मणायकः बिम्बे खेलदिबिम्बीव जानीहि नृपसत्तमा ये तन्मया स्वरूपं ते कथितं मोहकारकं यज्ञात्वा योगिवन्द्यश्च जायते मानवः क्षणात् जनक उवाच भक्तिप्रियो गणेशश्चेत्कथं मोहयुधाञ्जनान् स्वभक्तान्न स योगीन्द्रा करोति वददप्रियाः न पराधीनदातस्य स्वप्रियं गणनायकः पराधीन समानं नन करोगि महाद्भुतं पिप्पलायन उवाच गणेशेन महाराजक्रीडार्थं रचितं जगद मायामयं विशेषेण नानाखेलयुतं तथा तत्रादौ द्विविधं तेन तदर्थं रजितं पुरा तशृणुष्व विधानेन सर्वसंशयकारकं स्वस्वस्वार्थयुधं पूर्णं माया सुखकरं तदर्थं सर्वलोकाश्च ब्रह्माणि सम्भ्रमन्ति योगमार्गस्तथा राजन् रजिदो मोहनाशार्थं मायानाशकरो मदः योगेन गणपं ज्ञात्वा नरः पूर्णं तदो नृप भजतेनन्यभावेन तन्निष्टस्तत्परायणः यस्य भावो भवेद्यत्र यादृशस्तादृशम् चरेत तत्र विघ्नेश्वरः न करोति च यदा गणेश्वरो विश्वं भक्तियुक्तम् निरन्तरम् करोति चेद्गणेशस्य तदा खेलकुदो भवत न पराधीनदातस्य क्रीडार्थं गणनायकः विश्वं तु द्विविधम् कृत्वा परां पश्यदि भावनाम् यधत्ते कथितं राजन् श्रोतुमिच्छसि किं परं स्वाधीनं तु पराधीनं मायया दृश्यते सदा जनक उवाच किं कर्म किमकर्मापि विकर्मापि कथं भवेद कर्मयोगश्च विप्रेन्द्र कीदृशो वदत आविर्होत्र उवाच स्वस्वधर्मयुधं कर्म विधियुक्तं महामदे सौख्यप्रदं प्रोक्तं जन्म मृत्युपदम् भवेत् स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः विकर्म विद्धिराजेन्द्र तदेवं पापरूपकम् पापाच्चरणमात्रेण नरो दुर्गतिमाप्नुयात् देहदुःखकरं प्रोक्तं परिणामेन संशयः सत्कर्म कुरुदे नित्यमादराद नित्यमादराद् ब्रह्मार्पणस्वभावेना कर्मविद्धि महामदे शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति शाश्वतीम् अकर्मणः प्रभावेण स निष्कामपरो मदः कर्मयोगमयम् विश्वम् सर्वम् जानीहि पार्थिव क्रियायाम् यत् ब्रह्म स एव कर्मयोगकः क्रियमाणम् च यत् तदेव कर्म उच्यते तस्य भेदान् प्रवक्ष्यामि समाहिदमनाश्रुणो मौनं यदि धृतं तेन तदा जातं नृपात्मज अधः कर्ममयं विद्धि धारणान्नात्र संशयः वायुबन्धनयोगेन प्राणो नीतस्वमस्तके तदेव कर्मरूपं वै वायुच्चालनतः परम् ध्यानम् करोति चेच्चित्ते दमयित्वा मनस्वयं तदेवं कर्मरूपम् तु मनो निग्रहकारणात् जागृतिर्जागरम् कर्म स्वप्नः सुप्तिमयम् भवेत् अज्ञानं विद्धि सौषुप्तम् कर्मरूपं न संशयः भेदा मया वक्तुं न शक्यते नामरूपधरकोऽपि कर्महीनो न उत्पत्तिश्च स्थिधीराजन् संहारस्त्रिविधं परं सर्वं कर्ममयं विद्धि कर्मयोगेन जायते असद्ब्रह्म च वेदे तन्मायया बभौ कर्मरूपं न सन्देहो नामरूपप्रधारणात् नामरूपपरित्यागे ह्यः सत्स्वानन्दगम्भवेद मानवो ब्रह्मरूपः स कर्मयोगी प्रकथ्यते ये तत्कर्मस्वरूपं ते कथितं ब्रह्मवाचकं कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा जनक उवाच ज्ञानं च कीदृशं प्रोक्तं तन्मे वददयोगिनः येन योगी भवेद्यन्तुर्ज्ञानयोगपरायणः द्रुमिल उवाच हृदि स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा स्फूर्तिदादृस्वरूपेण ब्रह्म तत्र स्थितं भवेद नामरूपविहीनं यत् सदा मृदमयं भवेद आद्यन्तभावहीनं वै तद्विधिज्ञानमुत्तमम् ज्ञानचक्षुःस्वभावेन नाना ब्रह्मानुभवकारकं नानाज्ञानलयं कृत्वा ज्ञानयोगी नाना भवेत्तदः सत्यस्वानन्दरूपं त्वं जानीहि ज्ञानमूलकं ज्ञानानां ना योगभावेन योगसेवया जनक उवाच आनन्दकीदृश्य प्रोक्तः सहजं कीदृशं मदम् ब्रह्मभूयं च योगीन्द्रा कीदृशं कथयन्दु मे चमस उवाच बाह्यान्तरविभेदेनानन्दः सर्वत्र वर्तते उभयात्मकभावस्त समरूपधरो मदः नानाद्वन्द्वेषु राजेन्द्रस्थितमानन्दरूपकं समं विद्धि च सर्वत्र जगत्सुब्रह्मसुपरं सत्या सत्यमयं तद्धि समस्वानन्दगं परं ब्रह्मराजन् सदानन्दरूपं तदेव सम्मदम् द्वन्द्वे श्रुत्वा समन्ताद्यनन्दनात् तन्महीपते आनन्दः परमानन्दो ब्रह्मानन्दः प्रकथ्यते समभावस्थितानां च योगेन ब्रह्म लभ्यते आनन्दाख्यं प्रजानाथ योगसाधनतः परम् यदत्ते कथितं पूर्णमानन्दस्य स्वरूपकम् आनन्दानां समायोगे समस्वानन्दगो भवेत् द्विधा तस्य माया दुद्वन्द्वभावधरा मदा तयोः संयोगभावे उभयात्मक उच्यते तदेव द्विविधेष्वेव मोहयुक्तं न राधिप समं सर्वत्र जानीहि द्वन्द्वमोहादिदायकं त्रिषु मोहविहीनं यत् सदा नेदिस्वरूपकं स्वाधीनं सहजं विद्धि च दुग्धं राजसत्तम स्वेच्छया सत्समयुक्तम् स्वेच्छया सत्परायणम् स्वेच्छयानन्दसंयुक्तम् त्रिभिर्हीनम् निजेच्छया आज्ञया त्रिविधं ब्रह्म वर्तदे नात्र संशयः सर्वेषाम् नाशकम् तुर्यम् सहजं नेदिभावदः न तस्य वै विद्यते योगभावदः तेन नेदि मह्यं स्वच्छन्दगं प्रोक्तं सनातनं स्वेच्छया बन्धयुक्तश्च स्वेच्छया बन्धवर्जितः स्वेच्छया समभावस्थो भवदे सहजाख्यकः अव्यक्तेन त्रिभावेषु तेन योगेन लभ्यते सहजं ब्रह्मवेदेषु यत्प्रोक्तं वेदवादीभिः। स्वाधीनानां समायोगे व्यक्रस्वानन्द उच्यते अव्यक्तयोगभावत्वानिराकर्तुं न शक्यते यदत्ते कथितम्भूप सहजम् मोहवर्जितम् अधुना शृणुयोगम् त्वम् ब्रह्म भूय प्रकाशकम् स्वानन्दः सर्वसंयोगे भवदि ब्रह्मधारकः चतुर्नाम् तत्र संयोगकर्तव्यस्वसमाधिना त्रिविधम् मोहयुक्तम् च मोहीनं च दुत्थकम् नैव ब्रह्मणि राजेन्द्र मोहयुक्तविहीनते स्वाधीनं न भवेत्तत्तु पराधीनं न वर्तते ब्रह्मणां च तत्र संयोगो जायते परः स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः तत्रकिम् किं भिन्नभावाख्यं वरुतदे योगनाशकम् संयोगेनाशभूते दुब्रह्मयोगः प्रकीर्तिदः न तत्र जगदाम्भूप संयोगो ब्रह्मणां भवेद् अयोगस्य न संयोगः के शुभ्रह्मसु कीर्तितः योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्विचारया संयोगे मायया भवदे गणनायकः मायाधीनस्वरूपेण सदा योगः प्रवर्तते सर्व भावस्तो भवदिविरदाननः संयोगाभेदभावेन निजमायामय स्मृदः स्वानन्दे गणनाथस्य दर्शनं योगिनां भवेद संयोगाभेदगम् तेन विदुस्वानन्दवासिनम् अयोगे माययाहिनो गणेशः सर्वदा मतः यादृशस्तादृशसोऽपि नागतो न गतो, ना गतो भवेत् वृद्धा भ्रान्तिमयं सर्वं पासदे मायया किल भ्रान्तानां तेन सर्वत्र जायते परा स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकदः धृत्वा ह्ययोगयोगस्थस्वयं भवति मानवः अयोगे मायया हीनः माययायुतः नरो भवति राजेन्द्र पञ्च पञ्चस्वरूपया ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते अयोगश्च महीपालनान्वयव्यतिरेकदः चित्तं पञ्चविधं त्यक्त्वा चित्तभ्रान्तिं च पञ्चधा स्वयं चिन्ता मणिः नकारो योगवाचकः तयो तयोस्वामी गणाधीशसंयोगायोगवर्जितः इति ते कथितं भूपब्रह्मभूतस्वरूपकं किं श्रोतुमिच्छिप्राज्ञ गमिष्यामो यदृच्छया जनक उवाच गणेशो भक्त्रिभावेन नराधीनो भवेत्स्वयं न समभावाख्यं मोहदं तस्य सम्भवेद अधोपत मे भक्तिस्वरूपं योगिसप्तमाः तया विघ्नेश्वरं नित्यं भजिश्यामि विशेषतः करभाजन उवाच भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी कथयामि समासेन स्वरूपं रसदायकं श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् नवधा मानसि राजन् गदि सर्वत्र वर्तते भावेषु रससंयुक्ता दशमी नैव विद्यते यदा भक्तौ नरस्यैव रसः पूर्णः प्रवर्तते नित्यं चित्तं तस्यां वसेत्स्वयम् यदा मुक्तौ तथा जन्दो रसः पूर्णो जनाधिप तदा मुक्तिपदार्थेषु चित्तं तु नवधा भवेद् यदा जब्रह्मभूतेषु रसस्तस्य प्रवर्तते तदा नरस्य योगेषु चित्तं तन्नवधा भवेद योगी भूत्वा भूत नर यस्जते गणनायक नवधा चित् गणेशेद योगिना हृदय वसेद पूर्ण वसेदिना कलाश्च तस्मदी भव तदो गणेशरूपस्य भजनं पूर्णभावतः भवत्यत्र न सन्देहो रसयुक्तं विशेषतः गणेशगुणवादानां प्रीत्या सम्पूर्णभावतः प्रफुल्यात्सनरो नित्यं श्रवणं रससंयुतः सर्वश्रवणजातीनां रसं ज्वाल्यमहामतिः गणेशगुणवादेषु रसं पूर्णं स येवं एवं श्रवणभक्तिं त्वं प्राप्तां जानीहि भूमिप समदो योगिः सुश्रेष्ठो बुधैर्नृपनसंशयः तथा कीर्तनभावश्च उत्पद्येत नराधिप गणेशकीर्तने भक्तिप्राप्ता तेन विनिश्चितम् गणेशार्थं च या किञ्चिद्विस्मृतिस्तत्र नो भवेद् तदा स्मरणभक्तिः सा सम्पूर्णभावतः गणेशपादपद्मं यो मत्वा शाश्वतकम् परं तत्रैव सकलो यत्नो भवेत्तत्पादसेवनम् साङ्गं गानेश्वरं सर्वं कुरुदे नित्यमादराद अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामदिः गणेशान्न परं श्रेष्ठं वेदशास्त्रविचारदः न चलेत् क्वापि तदा वन्दनवान् भवेत् गाणपत्यानि चिह्नानि धृत्वा तत्पर तदा दास्यात्मिका भक्तिप्राप्ता तेन नराधिपा अन्तर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः अन्तर्भयेन भक्तिर्या साप्रोक्ता प्रोक्ता सख्यरूपिणी पञ्चधामोहयुक्तं स चित्तमुत्सृज्ययो गदः न भिन्नोऽहं गणेशानान् मद आत्मनिवेदकः मनोगतिप्राज्ञ यत्र तत्र विघ्नेश्वरं सदा भजते रससंयुक्तसवैभक्तः प्रकीर्तितः रसरूप स्वयं भक्तिर्यत्र पूर्णस्वभावतः यस्य तिष्ठति जन्तुः स तद्भक्तः भोगेषु नरसोत्पत्तिर्मुक्तौ च ब्रह्मभूयके गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् ब्रह्माकारैर्मः चिह्नैः संयुक्तं योगदायकम् तत्र विश्वासभावेन तादृगुत्पद्यते रसः तदा भक्तो महाराज भवते योगिवन्द्यकः नारदेनैव राजेन्द्र बोधितस्त्वं न बुध्यसे तव भावपरीक्षार्थं भक्तिदानार्थमञ्जसा प्रेषितस्तेन विघ्नेशो वृद्धः कुष्ठयुधो द्विजः समायादः नरदेहं समासाद्य गणेशं भजेतनयः पशुतुल्यः स राजेन्द्र तस्य दिक्जन्मनिश्चितम् मुग्गल उवाच यवमुक्त्वा विदेहं तं जनकं योगिनो नव अनुज्ञाप्य ययुस्तस्मात् स्वेच्छया गणपेरता जनकस्ता नमस्कृत स्वगृहे गणनायक योगी नव विधामंक्रिमगरो संयु अहर्शम गणेशानजनचेदनक योगीवंद्यो बभूवः तिष्ठन् स्वपन् पिबन् वादन् गच्छन् विघ्नेश्वरे रथः अदो संदुष्ट्या तद्वंशे जनका बभुः समायुक्ता सर्वे साधु गुणान्विताः गणेशभजने सक्ता बभूवुश्च प्रजापदे नवयोगिषु यादेषु जनकस्त्रिशिरोभवं वृत्तान्तं परिशुश्राव गणेशगमनात्मकं स्वयं तस्य गृहं गत्वा ननाममुनिपुङ्गवम् दैवीसमृद्धिसंयुक्तं योगपारङ्गदं परं तेन सम्बोधितो राजा नित्यं दूर्वापरायणः पुपूजगणनाधं तं सदा भक्तिसमन्वितः दूर्वा हीनाम्न पूजां स चकारमरणावधि अन्दे स्वानन्दगो भूत्वा भजते गणनायकम् इदं जनकमाहात्म्यं कथितं ते प्रजापदे प्रजापते भुक्तिमुक्तिप्रदं नृभ्यश्रवणात् पठनात् भवेत् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते धूर्वा माहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ओ